मुद्गलपुराणं कण्डं टु एकदन्तचरितम् अध्यायं सेवेण्टी वन् कपिलवरप्रधानम् श्रीगणेशाय नमः प्रह्लाद उवाच कोऽसौ गणासुरो दैत्यो येन च सत्कृतो मुनिः समर्थकपिलसाक्षात्प्रलयाग्निसमद्युतिः यस्य क्रोधयुधा दृष्टिः सगरान् प्रददाहसा तं तिरस्कृत्य जीवन्स कथं स्वनगरे गतः कृत्समद उवाच शृणु प्रह्लादयत्नेन गणासुरविचेष्टितं सर्वं वदामि पापघ्नम् गणेशचरिताश्रितम् अभिजिन्नाम राजर्षिरपुत्रः सं बभूवः पुत्रार्थं स वनं राजा यय त्यक्त्वा स्वराज्यकं भ्रमन् ददर्शयोगीशं वैशम्पायनमञ्चसा तं प्रणम्य पुत्र प्राप्तेपायं मे वद सर्वज्ञते नमः मुनीनां मन्द्रराजस्तु दत्तस्तस्मै प्रजापते चातुर्मास्य प्रयोगं तं विधियुक्तं निपश्य सः उपदिश्य तदस्तीर्थं प्रभासं संस्थितो भवद अभिजित्तं प्रणम्यैव शस्त्रीकः प्रययौ महत तीर्थं तत्र यथा योग्यमनुष्ठानपरो भवत तत्र ब्रह्मा तपस्तेपे सरस्वत्या समन्विदः स्नानार्थं सुदया युक्तकदाचित् स तत्रैकवस्त्रसंयोक्तां विधिर्दृष्ट्वा सरस्वतीं यौवनस्तां कुजाभ्यां तां रूपिणीं विस्मितो भवद अकस्माज्जलमध्ये सौ कामबाणार्दितो भवद पुत्री भावं समागृह्य चञ्चलं चित्तमाददे कामेनात्यन्तमुग्रेण पीडितस्य जगद्गुरोः वीर्यं तस्यास्खलत्तत्र जलमध्ये सुरेश्वरः तद सुमनसायुक्लसत्यलोकं ययविधिः प्रयोगोऽभिजितः शोधसमाप्तस्तद्दिने शस्त्रैकस्नानसिद्ध्यर्थं ययौतीर्थं नृपस्तदाृषदा तस्य पत्नी जलपानरता भवत् दैवयोगेन तद्वीर्यं ब्रह्मणो वारिणा सह तस्या उदरकं जातमोखमसुरोत्तम राजा समाप्य तत्सर्वं मन्त्रानुष्ठानमादराद ययौ पूर्णं चक्रेवै वैराज्यमुत्तमं कालेन सुषुवेराज्ञी पुत्रं सा चारुहासिनी तेजोयुक्तं महावीर्यं लक्षणैरुपशोभितम् जातकर्मादिगं राजा चकारविधिवद्विजैः दत्वोपवीतदानं स वेदाभ्यासे मदिं ददौ स्वल्पकालेन पुत्रो सौगनो नाम्ना महाबलः वेदशास्त्रनिधिर्जातस्तदो यात्स वनं स्वयौ मार्गे च सहसागत्य शुक्रः पञ्चाक्षरीं ददौ तस्मै दीक्षां शिवस्यासौ तथा चक्रे सभावदः शिवम् ध्यात्वा तपस्तेपे महोग्रम् वायुभक्षकः दशवर्षसहस्रैस्तम् ययौ भक््रिया सदा शिवः आगतं शङ्करं दृष्ट्वा पूजयद्भक्तिभावदः तुष्टावविविधैस्तोत्रैर्वरदं तं जगादसः आरोग्यादिसमायुक्तं त्रिगुणान्नभयं च मे त्रैलोक्यराज्यमुग्रं वै देही मे त्वं सदाशिव ओमित्युक्त्वा महादेवस्वस्थानं प्रजगामः महा गणश्च स्वगृहं दैत्यययौ परमहर्षिदः सर्वानानन्दयामास सुहृदपितरौ स्वकौ तदो विजिज्ञे पृथिवीं सेनया स्वेन तेजसा तदो पित्राभिषिकृतो भूत्स्वराज्ये वनगेन सह सपत्नीकेन भूपालो गणस्थाने बभूवः तदो दैत्यैः समायातैर्नानादिग्भ्यो नृपो गणः तैर्युक्तः सकलां पृथ्वीं विजिज्ञे द्वीपसंयुताम् पादालं स तदो नागैर्जिगाय बलसंयुधः युद्धं कृत्वा महाघोरं तदस्वर्गं ययौ गणः स्वर्गं जित्वा सहेन्द्रैः स तदो ब्रह्मणमञ्जस विष्णुं शिवं क्रमेणैव जय तेजः समन्विदः ततस्तान् करदान् कृत्वा स्थापयामास देववान् स्वस्वस्थानेषु तत्रैकं दैत्यं न्यस्य धरां ययौ एवं त्रैलोक्यराज्यं स जित्वा सर्वांश्चकारः ततश्चिन्तामणिं कपिलो गणनाथस्य भक्तः परमभाविकः ततापसतपोखोरं गणेशस्य महात्मनः वर्षेणैकेन देवेशो ययौ मूषकवाहनः सिद्धिबुद्धिसमायुक्तो बोधयत्तं महामुनिम् कपिलस्तं गणाध्यक्षमागतं पूजयन् प्रभुं तुष्टाव प्रेमगद्गदया गिरा कपिल उवाच नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः आकाशाय च भूतानां मनसे चामरेषु ते बुद्ध्यायि चेन्द्रियवर्गेषु त्रिविधाय नमो नमः देहानां बिन्दुरूपाय सोऽहं रूपाय देहिनां तयोरभेदभावेषु बोधाय तु नमो नमः साङ्ख्याय वैविदेहानां संयोगानां निजात्मने चतुर्नां पञ्चमायैव सर्वत्रदु नमो नमः नाम रूपात्मकानां वै शक्तिरूपाय ते नमः आत्मनां रवये हेरं हेरम्भाय नमो नमः आनन्दानां महाविष्णुरूपिणेनेधिधारिणां शङ्कराय च सर्वेषां संयोगे गणपायते कर्मणां कर्मयोगाय ज्ञानयोगाय जानदां समेषु समरूपाय लम्बोदर नमोऽस्तु सहजाय नमो नमः तेषामभेदभावेषु स्वानन्दाय च ते नमः निर्मायिकस्वरूपाणामयोगाय नमो नमः योगानां योगरूपाय गणेशाय नमो नमः शान्तियोगप्रदात्रे दे शान्तियोगमयाय च किं स्तौमि तत्र देवेश अत स्त्वाम् प्रणमाम्यहम् जगादगणनाथो वै तदस्तम् भक्तमुत्तमम् हर्षेण महदायुक्तो हर्षयन् मुनिसत्तमम् गणेश उवाच त्वया कृतमदीयं यत्स्तोत्रम् योगप्रदम् भवेद। र्मार्थकाममोक्षाणाम् दायकं च न संशयः वरं वर यदास्यामि मत्तस्त्वम् भक्तियन्त्रितः त्वत्समो न भवेत्तादतत्त्वज्ञानप्रकाशकः तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाचः त्वदीयामचलां भक्त्रिं देहि विघ्नेश मे परां त्वदीयभूषणं दैत्यो हृत्वा जगामहा। मत्तश्चिन्तामणिं नाथ जहितं मणिमानय स्मरामि चेद्यदाहं त्वां तदात्मानं प्रदर्शय येदमेव वरं पूर्णं देहि नमोऽस्तु गृत्समद उवाच तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः उवाच तं महाभागं प्रेमयुक्तं विशेषतः गणेश उवाच त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति तव पुत्रो भविष्यामि गणासुरवधाय च एवमुक्त्वार्दधे सौ डुण्डिराजप्रदापवान् मुनिस्तं हृदि सञ्चिन्त्यस्वाश्रमस्थो बभूवः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कपिलवरप्रदानं नाम एकसप्ततितमोऽध्यायः ओम्